षडधिकशततमोऽध्यायः जनमेजयौ वा च किङ्कृतम् कर्मधर्मेण येन शापमुपेयिवान् कस्य शापान् ब्रह्मेशः शूद्रयो नावजायत बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः सर्वधर्मज्ञः सत्ये तपसि च वृक्षमूले महातपाः ऊर्ध्वबाहुर्महायोगी तस्थौ मौनवृतान्वितः तस्य कालेन महता तस्मिंस्तपसि वत्ततः तमाश्रममनुप्राप्ता दस्यवो लोप्रहारिणः अनुसार्यमाणा बहुभिरक्षिभिर्भरतर्षभ ते तस्यावसथे लोप्त्रम् दस्यवः कुरु सत्तमा निधाय च बले तेषु लीनेश्वथो शीघ्रम् ततस्तद्रक्षिणाम् बलम् आजगाम ततो पश्यंस्तमृषिम् तस्करानुगाः तमपृच्छंस्ततो राजंस्तथावृत्तम् तपोधनम् कतमेन पथा याता दस्यवोद्विचसत्तम तेन गच्छामहे हे ब्रह्मन् यथा शीघ्रतरं वयं तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः न किञ्चिद्वचनं राजन्नब्रवीत्साध्वसाध्वा ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमं ददृशुस्तत्रलीनांस्तांश्चौरांस्तद्रव्यमेव च ततः शङ्कासमभवत् रक्षिणां तं मुनिं प्रति संयम्यैनं ततो राज्ञे दस्योंश्चैव न्यवेदयन् तम् राजा सहतैश्चौरैरन्वशाद्वध्यतामिति सरक्षिभिस्तैरज्ञातः शूले प्रोतो महातपाः ततस्ते शूलमारोप्य तम् मुनिम् रक्षिणस्तदा प्रतिजग्मुर्मही पालम् धनान्यादायतान्यथा शूलस्थः स तु धर्मात्मा कालेन महता ततः निराहारोऽपि नाभ्यपद्यत धारयामास च प्राणान् ऋषींश्च समुपानयत् शूलाग्रे तप्यमानेन तपस्तेन महात्मना सन्तापम् परमं जग्मुर्मुनयस्तपसान्विताः ते रात्रौ शकुना भूत्वा सन्निपत्यतु भारत दर्शयन्तो यथाशक्ति तमपृच्छन् द्विजोत्तमम् श्रोतुमिच्छामहे ब्रह्मन् किं पापम् कृतवानसि येनेहसमनुप्राप्तं शूले दुःखभयं महत इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि अणीमाण्डव्योपाख्याने षडधिकशततमोऽध्यायः